अवधषट्षष्टितमः सर्गः प्राकारं गिरिकूटोपमो महान् निर्ययौ नगरात् पूर्णम् कुम्भकर्णो महाबलः ननाद च महानादम् समुद्रमभिनादयन् विजयन्निव निर्घातान् विधमन्निव पर्वतान् तमवध्यम् अघवता यमेन प्रेक्ष्य भीमाक्षमायान्तम् वानरा विप्रदुद्रुवुः तांस्तु विप्रद्रुताम् दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत् नलम् नीलम् गवाक्षम् च कुमुदम् च आत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि भी च क्व भयत्रस्ताः प्राकृता यथा साधु सौम्यानि वर्तध्वम् प्राणान् परिरक्षथ नालम् युद्धाय वैरक्षो महतीयं विभीषिका महती मुत्थितामेनाम् राक्षसानाम् विभीषिकां विक्रमाद्विधमिष्यामो निवर्तध्वम् प्लवङ्गमा कृच्छ्रेण तु समाश्वस्य सङ्गम्यचततस्ततः वृक्षाम् गृहीत्वा हरयः सम्प्रतस्थूरणाजिरे ते निवर्त्यतु संरब्धाः कुम्भकर्णम् निजघृः परमक्रुद्धाः समदा इव कुञ्जराः प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः पादपैः पुष्पिताग्रैश्च हन्यमानोऽनकम्पते तस्य गात्रेषु पतिता भिद्यन्ते बहवः शिलाः पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले सोऽपि सैन्यानि सङ्क्रुद्धो वाणराणाम् महौजसाम् ममन्थ परमायत्तो वनान्यज्ञरिवोत्थितः रोहितार्द्रास्तु बहवः शेरते वानरर्षभाः निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः लङ्घयन्तः प्रधावन्तो वानरानावलोकयन् केचित् समुद्रे सागरम् येन ते तीर्णाः पथा तेनैव दुद्रुवुः ते स्थलानि तदा निम्नम् विवर्णवदनाभयात् वृक्षावृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ममज्जुरर्णवे केचिद्गुहाः केचित् समाश्रिताः नृपेतुः केचिदपरे केचिन्नैवावतस्थिरे केचिद्भूमौ निपतिताः केचित् सुप्तामृता इव समीक्ष्याम् गदो भग्नान् वानरानिदमब्रवीत् अवतिष्ठत युध्यामो निवर्तध्वम् प्लवङ्गमाः भग्नानाम् वो न पश्यामि परिक्रम्य महीमिमाम् स्थानम् सर्वे निवर्तध्वम् किम् प्राणान् परिरक्षथ निरायुधानाम् क्रमतामसङ्गगतिपौरुषाः दाराह्युपहसिष्यन्ति स वैघातः सुजीवताम् कुलेषु जाताः सर्वेऽस्मिन् विस्तीर्णेषु महत्सु च क्व गच्छतभयत्रस्ताः प्राकृताहरयो यथा अनार्याः खलु प्रधावता विकत्थनानि वो यानि तानि वक्वनुयातानि सोदग्राणि मार्गः सत्पुरुषैर्जुष्टः सेव्यताम् त्यज्यताम् भयम् शयामहे वा निहताः पृथिव्यामल्पजीविताः अवाप्नुयामः कीर्तिम् वा निहत्वा शत्रुमाहवे निहता वीरलोकस्य भोक्ष्यामो वसुवानराः न कुम्भकर्णः काकुत्स्थम् दृष्ट्वा जीवम् ज्वलनम् यथा पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम् एकेन बहवो भग्ना यशो नाशम् गमिष्यति एवम् ब्रुवाणम् तम् शूरमङ्गदम् कनकाङ्गदम् द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् कृतम् नः कदनम् रक्षसा नस्थानकालो गच्छामो दयितम् जीवितं हि नः एतावदुक्त्वा वचनम् सर्वे ते भेजिरे दिशः भीमम् भीमा क्षमायान्तम् दृष्ट्वा वानरयूथपाः द्रममाणास्तु ते वीरा अङ्गदेन बलीमुखाः सान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः प्रहर्षमुपनीताश्च बालिपुत्रेण धीमता आज्ञा प्रतीक्षास्तुश्च सर्वे वानरयूथपाः ऋषभ शरभमैन्दधूम् रीलाः कुमुद सुषेण गवाक्षरम् भताराः द्विविद पनस वायुपुत्र मुख्या स्त्वरिततराभिमुखम् रणम् प्रयाताः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकाण्डे षट्षष्टितमः